ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवत महापुराणे सप्तमस्कन्धे सप्तमोऽध्यायः वस उवाच दत्ते ग्रहे तु राजेन्द्र वासवः कुपितो वृशं प्रोवाच वदन्त दर्शयन् बलमात्मनः मा ब्रह्मबन्धो भर्याराम् इमां तं कर्तुमर्हसि वरिष्या मे द्विशन्तम् तं विश्वरूपम् विवापरम् च अनुवाच मा मम स्था महात्मानौ रूपद्रवेण न्ये कथं वादेव गृहम् अश्विनोऽपि देवेन्द्र देवो विद्धि परं नन्द्रवाच द्विषयो नरह कामम् गृहं यज्ञे कथञ्चन यदि मन्दाेत्यामिताम्बं दासवाच अनादृत्ये तु तत् वाक्यम् च भार्गवहे गृहं तु ग्राहया मास भक्सयन् दिवसं वृशं सोमपात्रं यथा ताभ्यां गृहीतं पिपासय समीक्ष्य बलभे देव इदं नवीत् आभ्यामथाय सोमन्द्रं ग्राहिष्यचि चेत् वज्रं तु प्रहरिष्यामि विश्वमिव परम् वास्तवेनैव मुक्तः तु भार्गवश्चातिगर्वितः जग्रहे विधिवत् सोमम् अश्विभ्या मतिमन्युमाम् इन्द्रोऽपि प्रक्षिपत् कोपात् पात। वज्रम् अस्मे पश्यतां सर्वदेवानाम् सूर्यकोटिसमप्रभम् प्रेरितं चाशनिं प्रेक्ष्य चवनस्तपसा ततः तम्भयामास वज्रं स चक्रस्यामित तेजसः कृत्यया स महाबाहु इन्द्रम् भन्तुमिहोद्यतः जुहल् अग्नो श्रुतं हव्यम् मन्त्रेण मुनिसत्तमः तत्र कृत्या समुत्पन्ना च तपो बलात् प्रबलः पुरुषक्रोरो बृहत्कायो महासुरः मधो नाम महाघोरो भयदः प्राणिनाम्ब्य शरीरे पर्वताकार तीक्ष्णदंष्ट्रो भयानक चतस्रश्चायथा दष्ट्रा योजनानां शतं चतम् इतरे त्वस्य दशना बभूव दशयोजनः आहो पर्वतसङ्काशौ आयत क्रूरदर्शनो जिह्वा तु भीषण क्रूरा लीलिहानभस्थलम् ग्रीवा तु गिरिशृङ्गाभय कठिन भीषण वृषम् न खा व्याघ्रे न खप्रख्या केशाश्चातीव भीषणः शरीरं कञ्जला भजे तस्य चास्यम् भयानकम् नेत्रे भीषणेति भयानके अनुरेका सिता तस्य भूमौ एकादिवं गताय एवं विधस्तमुत्पन्नो ृहत्तनुः तन् विलोक्य सुरा सर्वे भयं मा जग्मुरं हसाय इन्द्रोऽपि भयतन्त्रसौ युद्धायो न मनो दधे वदने कामं वज्रमादाय संस्थितः त्यक्तं नभो घोरदृष्टि ग्रसन् देव जगत्त्रयम् न भक्षयिष्यन्तं क्रोध च क्रतुम् वा उपाद्रवत् चक्रवे आहतास्मेति संस्थिताः इन्द्रस्तम्भितबाहुस्तु मुर्वज्रमन्दिक न शचके पविं तस्मिन् प्रतुं पाकशासनः वज्रहस्त सुरेशार संवीक्ष्य कालसन्निभम् सस्मार मनसा तत्र गुरुम् स माय कोविदम् स्मरणादा जगामाशु बृहस्पती गुरु तत्समयम् दृष्ट्वा विपत्ते सदृशम् महत् विचार्य मनसा कृत्यम् तम् उवाच शचीपतिम् दुःसाध्योऽयम् स्वयं वज्रेण वासवे असरो मदसन्न्यस्तु यन्निकुण्डात् समुत्स्थितः तपोबालं सम्यक् चवन्नस्य महाबलः अनिवार्यो यजत्रुः ये त्वया देवै तथा मया शरणं याहि देवे च चवन्नस्य महात्मनः स निवारिता नूनं कृत्या मात्मगुतां किल न निवारितुं शक्तः शक्ति भक्तं क्वचित् वासवाच इत्युक्त्वा गुरुणा चक्रे तदा गच्छन् मुनिं प्रति प्रणम्य शिरसा नम्र तं वाच भयान्वितः प्रसन्नो भव सर्वस्य वचनं ते करोम्यहम् अश्विनो एतो अद्य प्रभृति भार्गवे भविष्यतः सत्यमेते वचो विप्रसीनमे निख्यातेनोद्यमो यषे भवत्वे वैतपोधने रे त्वमपि धर्मद्य मिथ्या नैव करिष्यति स्वमपावैश्विनो तौ तत्कृतो च सदैव भविष्यतश्चर्यापि इति तु विफला भवेत् मया यद्धि कृतं कर्म सर्वथा मुरितम परीक्षार्थं तु विज्ञेयं तव वीर्य प्रकाशनम् दम् कुरु मे ब्रह्मन् मदं संहर चोत्थितम् कल्याणम् सर्वदेवानां तथा भूयो विधीयताम् एवम् उक्त शुचक्रेण च वनः परमाश्रवित सञ्जहार तपः कोपम् समुत्पन्नं विरोधजम् देवमाश्वास संवेनं भार्गभक्तो मदन्ततः व्यभजत् त्रिषु लोक पानेषु द्यूतेषु गृहयासु च बदं विभज्य देवेन्द्रम् आश्वास्य चकितं भ संस्थाप्य च सुरान् सर्वं मखं तस्य निवर्तत संस्कृतं सोमं वासवाय महात्मने अश्विभ्यां धर्म सर्वधर्मात्मा पाय्यामास भार्गवः एवं तौ च मनो अश्विनो रविपुत्रकौ वेतौ सोमपो राजम् सर्वथा तपसो बलादपि विख्यातम् दातम् जोपविमण्डितम् आश्रमस्तु मुने सम्यक् पृथिव्यां विश्रुतो भवते राज्यं चकार धर्मज्ञो मनुपुत्रं प्रतापवान् अनर्तस्तस्य पुत्रोऽभूत् अनर्थोग्रैवतो भवत् सन्तस्समुद्रे नगरीं विनिर्माय कुशस्थलीम् आस्थितो भुङ्क्तभीषयान् अनर्तादीनरन् दीन तस्य पुत्रे शतं ज्ञे ककुन्दी ज्येष्ठमुत्तमम् पुत्री च रेवते नाम्ना सुन्दरी शुभलक्षणाय वरयोग्यायता तदा राजा च रेवतः चिन्तयामास राजेन्द्रौ राजपुत्रान् कुलोद्भवान् वैवतन्नाम च गिरिम् आश्रितः पृथ्वीपतिः चकारराज्यम् बलवान् आनर्थेषु निराधिपः विचिन्त्य मनसा राजा कस्मै देया मया सुतय गत्वा पृच्छामि ब्रह्माणम् सर्वज्ञम् सुरपूजितम् इति सञ्चिन्त्य भोपालः सुता माताय रेवतीम् ब्रह्मलोकम् जगामाशु तष्टु कामपि यहां से पर्वता अद्ध्य आद आद श्रीता चापी दिव्य रोपिता ऋषय सिद्ध गवाचारस्तु प्राजल सर्वे स्वंत पुरातन इति श्रीमद्देवी भगवते महापुराणेष्टादश सप्तमस्कन्धे रेव तस्य रेवतीवदा वरार्थं धर्मलोकै गमनवर्णनं नाम सप्तमोऽध्याय श्री जगदम्बिकायार्पणमास्तु